ओम् हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् तन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीम् अनपगामिनीम् यस्याम् हिरण्यम् विन्दे जङ्गामश्वम् पुरुषादहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रेर्मा देवीर्जुषताम् कांसो ओस्फिताम् हिरण्य प्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्ती पद्मे स्थिताम् पद्मवर्णाम् तामिषोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् पद्मिनीम् शरणमहम् प्रपद्ये अलक्ष्मेर्मेणश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तुमायान्तराजाश्च बाह्या अलक्ष्मीः उपैतुपाम् देवसखः प्रादुर्भूतोऽस्मिराष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे क्षुत्पिपासा पदाम् ज्येष्ठामलक्ष्मीर्माजयाम्यहम् अभूतिमसमृद्धिम् च सर्वान् निर्नुत मे गृहात् गन्धद्वाराम् दुराधरिडाम् नित्यपुष्टाम् करीषिणीम् ईश्वरे कुम् सर्वभूतानाम् मनसः काममाकूतिम् वाचः सत्यमही मही पशूनाम् रूपमन्नस्त्यमजि श्रे श्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्मवारिणीम् आपः सृजन्तु स्निग्धानि चिक्ले तव गृहे निच देवीम् मातरम् श्रियम् आर्द्राम् पुष्करिणीम् पुष्टिम् सुभन्नाम् हेमबालिनीम् सूर्याम् गिरण्मयीम् लक्ष्मीम् जातवेदो महावहा आर्द्राम् यः करिणीम् यष्टिम् पिङ्गलाम् पद्मबालिनीम् चन्द्राम् गिरण्मयीम् लक्ष्मीम् जातवेदो महावहा ताम् महावह जातवेदो लक्ष्मीम् मनप कामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योष्वान् विन्देयम् पुरुषानहम् यश्चुतिः प्रयतो भूत्वा जुहुजादाज्यमन्वहम् श्रियः पञ्चदशर्कम् च श्रीकामः सततम् जपेत् पद्मानने पद्म पद्माक्षी पद्मसंभवे तुम्मा अम्भजस्व पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायी गोदाजी धनदायी महाधने धनम् मे लभताम् देवी सर्वकामार्थसिद्धय पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिगवे रथम् प्रजानाम् भवसि माता आयुष्पन्तम् करोतु माम् चन्द्राभाम् लक्ष्मीशानाम् सूर्याभाम् चन्द्रसूर्याग्निसङ्काशाम् श्रीमहालक्ष्मीमुपास्पहे धनमग्निर्धनम् वायुर्धनम् सूर्ययोधनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुनन्धनमश्नुते वैदते यसोमम् पिब सोमम् पिबतु वृत्तः सो बन्धनस्य सोमिनो सोमिनः न क्रोधो न च मात्थरियम् भवन्ति कृत पुण्यानाम् भक्तानाम् श्रेधो उक्तम् वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः रोहन्तु सर्व बीजान्यवब्रह्म त्रियोजही पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षी विश्वप्रिये विष्णुमनोऽनुकूरे मयि सन्निधत्स्व महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी जम्भीरावर्तनाभिस्तनभरनमिता जुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्तापिता हे मकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता सिद्धलक्ष्मीर्मोक्ष लक्ष्मीर्द्वयलक्ष्मेः सरस्वती श्रीर्लक्ष्मीर्वर लक्ष्मीश्च प्रसन्न मम सर्वदा वराङ्कुशौपाशमभीतिमुद्राम् करैर्वहन्तीम् कमलासनस्थाम् बालार्ककोटि प्रतिभाम् त्रिनेत्राम् भजेहमुम्बाम् जगदीश्वरीम् ताम् लक्ष्मीम् क्षीरसमुद्रराजतनजाम् श्रीरङ्गधामेश्वरीम् दासीभूत समस्तदेव वनिताम् लोकैकदीपाम् कुराम् श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्र गङ्गाधटाम् ताम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्द शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि Narayani namostute